श्रीमद्भागवतमहापुराणं पञ्चमस्कन्धः अथ पञ्चविंशोऽध्यायः श्रीशङ्कर्षणदेवता कां विवरणस्तुति श्रीसूकुवाच तस्य मूलदेशे त्रिंशद्यो जनसहस्रान्तर आस्ते या वै कला भगवतं तामसी समाख्यां तानन्त इति सा त्वतीयां द्रष्टीदृश्ययोः शङ्कर्षणं महमिद्याभिमानलक्षणं यं शङ्कर्षणम् इत्याचक्षते यस्येदं क्षितिमण्डलं भगवतोऽनन्तमूर्तेः सहस्रशिरस एकस्मिन्नेव शेषरीं ध्रियमाणं सिद्धार्थ लक्ष्यते यस्य ह वा इदं कालेनोपसञ्जीहीर्षतोमर्षं विरचितरुं रुचिरं भ्रमद्भ्रुवोरन्तरेण शाकर्षणो राम इन्द्र एकादश व्यूहस्त्र्यक्षस्त्रीशिखं शोडमुद्दम्भयन् उदतिषत यस्याङ्घि कमलयुगलारुणं विसदनङ्खं मळीषन्मण्डलेष्वहीपतय शशात्वकर्षभेम्भैरेकान्तभक्तियोगे नावन्मन्तः स्वभदनाले परिस्फुरत्कुण्डलप्रभा मण्डितगण्डलस्थलान्यति मनोहराणि प्रमुदित मनसः खलु विलोकयन्ति यस्यैव हि नागराजकुमार्य आशीष आशास्वां चार्वङ्ग वलयविलसितं विसद विपुलधवल शुभं शुभगरुचिरभुज रजं तम्भों तम्भे स्वगुरुचन्दनकुङ्कुमपङ्कानुलेपे नावलिम्पमानां तद्भिर्बलोन्मथितहृदयं मकरध्वजाविशरुचिरललितस्मिन् स्मिता दस्तदनुराग मदं मुदितं मदं विगुणीतारुणकरुणावलोकनयन मदनारविन्दं त्रविडं किलविलोकयन्ती स एव भगवन्तो भगवनन्तोऽनन्तगुणं गुणार्णवम् आदिदेव उपसंहृतामर्षरोषवेगो लोकानां स्वस्यस्ते ध्यायमानसुरासुरो गङ्गं सुरोरगसिद्धगन्धर्वविद्याधरमुनिगणैरनं वरतदम् अदुं अदमुचेत अधुं अधुं विकृतं विह्वललोचन सुललितं करिकामृतेनाव्यायमान स्वपार्षदविबुधयोथपतिन परिमलानां मल्यानरागनवं तुलसिका बोधमध्वासवेन माद्यन्मधोकरभ्रातमधुरगीतश्रियं वै जयन्तीं शाम्बनमालां नीलवासा एककुण्डलों हकलकुलीकृतसुभगसुन्दरभुजो भगवान् माहेन्द्रो वारणेन्द्र इव काञ्चनीं कक्षाम्बुदारलीलो बिभरति य एष एवं मनुसृतोऽध्यायपानो मुमुक्षूणाम् अनादिकालकर्मवाचनाग्रथितम् अविद्यामयं हृदयग्रन्थे सद्वरजस्तमोमयं मन्तर्हृदयं गत आशु निर्भिनद्दे तस्यानुभावान् भगवान् स्वायम्भुवो नारदस तुम्बरूणा सभायां ब्रह्मण संश्लोकयामास उद्बद्यतिरहेतयोश्च कल्पा सत्त्वाद्या प्रकृतिगुणा यदीक्षया सन् यद्रोपं ध्रुवम् अकृतं यदेकमात्मन्नानाधाद्गमथुं भवेद तस्य वर्त्मृतिं न परो कृपयाबभारसत्त्वं संशुद्धं शदशुद्धितं विभाति यद्र यल्लीलां मृगपतीरादतेन मद्याम् आदातुं सजनमनां स्योदारवीर्यः यन्नाम श्रुतमनुकीर्तयेदकस्मान् आर्तो वा यदि पतितः प्रलम्भनाद्वाम् अन्त्यहं सपदेणाम् अशेषमन्यं कं शेषाद्भगवत आश्रयेन्मुक्षो मध्यमध्यं मूर्धन्यर्पितम् अणुवसहस्रमुर्धो भूगोलं शगिरिसरी समुद्रसत्वम् आनन्तानिमित्तं विक्रमस्य भुम्न को विर्याडी सहस्रजीव एवं प्रभावो भगवान्नन्तो दुरन्तविर्योरुगुणं गुणानुभाव भूलेरसायासित आत्मन् नन्त्रो जो लीलयात्मां स्थितये विभरति एताशिवेपं गन्तव्या गतयो यथा कर्म विनिर्मिता यथोपदे स मनुवर्णिता कामान् कामयमाने एतावृत्तिर्हि राजन् स प्रविद्धिलक्षणस्य धर्मस्य विपाकगतय उच्चापचा विसृशा यथा प्रश्नं व्याचख्ये किमन्यन् कथय माम् इति श्रीमद्भागवते महापुराणे प्रपंसां शयितायां पञ्चमस्कन्दे भो वि वरं विध्योपवर्णनम्नां पञ्चमीशोऽध्यायः